नमस्कारः अस्माकं योगनिष्ठजीवनम् इति वर्गे भवतां सर्वेषां स्वागतं एतावता अस्माभिः चर्चितं योगनिष्ठजीवने बहवः विषयाः सन्ति तेषां स्वजीवने आनयनम् अत्यावश्यकम् इति चर्चितमस्ति तर्हि योगदर्शने अस्माभिः बहवः विषयाः चर्चिताः जगतः अनन्तरं कुतः जगत् आगतम् अनन्तरम् अस्माकम् अस्तित्वं नाम किं मनुष्यः नाम कः मनुष्यस्य मानवधर्मः नाम कः इति एते बहवः विषयाः चर्चिताः परन्तु अन्ततो गत्वा ये विषयाः अस्माभिः चर्चिताः तेषां मूल्यं नास्ति यावत्पर्यन्तं तेषां स्वजीवने आनयनं नास्ति केवलं आ, ये विषयाः चर्चिताः तेषां विषये केवलं श्रवणम् एव अस्ति इति चेत् तत् पर्याप्तं नास्ति स्वजीवने यत्किमपि अस्माभिः अधीयते तस्य स्वजीवने आनयनं अत्यावश्यकम् यतोहि योगदर्शनम् इति यः विषयः अस्ति सः तु पुस्तकीयज्ञानं नास्ति योगदर्शने स्वजीवने विनियोगः अत्यावश्यकः विनियोगः यदा क्रियते तदानीमेव अन्ततो गत्वा जीवात्मनः परमात्मनः ऐक्यं भवति mm. सीमितवस्तुनः असीमितवस्तुना सह योगः तदानीमेव भवति जीवात्मा परमात्मन परमात्मनोः संयोगः योगः खलु तत् भवति इति चेत् ये विषयाः चर्चिताः तेषां स्वजीवने आनयनं यदि केवलं श्रवणमस्ति तर्हि तत्तु केवलं पुस्तकीयज्ञानं के तेन न कोऽपि लाभः अस्माभिः एत एतदपि चर्चितं यत् यदा वयं नूतनतया योगनस्य जीवने वय प्रविशामः तदानीं आरम्भे अनुशासनस्य आवश्यकता अस्ति अनुशासनं तदनन्तरम् अभ्यासः तदनन्तरं स्वभावः अनुशासनं प्रथमतया यदा अस्य विषये जानीमः तदानीं सर्वं नूतनं भवति तद् स्वजीवने आनयने क्लेशाः भवन्ति मनसि इच्छा न भवति किमर्थं मया एवं कर्तव्यं तत्र आहारात् किं तत्र शर्करा तैलम् अनन्तरं दधि इत्यादयः दधि घृतम् इत्यादयः स्वीकर्तव्याः अपि च ये तु आ, तत्र बहिः बहिः ये यानि वस्तूनि लभ्यन्ते खाद्यपदार्थाः लभ्यन्ते तेषां भोगः न स्यात् अनन्तरं बहिः यद् रेस्टोरेण्ट्स् सन्ति तत्र न गन्तव्यं यतोहि एतत् सर्वम् अस्माकं जीवने बहुकालात् वयं कुर्वन्तः स्मः खलु इत्युक्ते तत्र अस्माकम् अभ्यासः जातः तेषु विषयेषु तर्हि इदानीं इदानीं तत्र तादृशविषयस्य परिवर्तनम् इति यदा वयं शृण्मः तदानीम् इच्छा भवति तदानीं मनसि आकाङ्क्षा भवति एतत् सर्वं कर्तुं किमर्थं मया एतत् कर्तव्यं मया तु बहुकालात् एतत् एवं भोजनं करोमि तर्हि किमर्थं मया परिवर्तनीयम् इति एतादृशप्रश्नाः भवन्ति यथा कोऽपि मद्यपानं करोति अथवा धूम्रपानं करोति अथवा मांसाहारं स्वीकरोति तेषां विषये अपि तथैव अस्ति खलु यदा ते बालकाः आसन् तदानीं तु धूम्रपानस्य अभ्यासः नासीत् तदानीं तु मद्यपानस्य अभ्यासः नासीत् तदानीं तु बाल्यावस्थायां मांसाहारस्य अपि अभ्यासः नास्ति परन्तु कालान्तरे तेषु विषयेषु अभ्यासः जातः तर्हि इदानीं तेषां स्थगनं करणीयम् इति यदा वयं शृण्मः तदानीम् इच्छा न भवति मनसि इच्छा न भवति किमर्थं मया कर्तव्यम् इति तादृशप्रश्नः आयाति तदर्थं किं कर्तव्यम् इति चेत् यतोहि मनसि इच्छा न भवति एतेषु विषयेषु तर्हि किं कर्तव्यम् इति चेत् प्रथमतया यदा शृण्मः यदा अस्माकं हृदि एतादृशविषयः तत्र अस्माकं हृदि विश्वासः विश्वासः जायते ओ यत् यद् उक्तं तत् सम्यक् अस्ति तद् तत् स्वजीवने आनयनम् इति यदा मनसि तादृश हृदि तादृश इच्छा उदयति यद्यपि मनसि इच्छा नास्ति तत्सर्वं कर्तुं तथापि तत्र आरम्भ प्रारम्भिकस्तरे अनुशासनस्य अत्यावश्यकता अस्ति अनुशासनम् इत्युक्ते तत्र डिसिप्लिन् युनिट् युनिट् फ़ोर्स् योर् सेल्फ़् डिसिप्लिन् डिसिप्लिन् अत्यावश्यकमस्ति discipline is needed because it's not immediately attractive to the mind tadi kalaantare yada tasmineva visaye punaha punaha punaha krutva abhyasaha jayate tadani asmaka manasi tatra iccha aniccha eta sarvam parivartate hm tadani parivartate ida purvam yasya visaye iccha asti et idanin tasyya visaye iccha nasthi eto hi tadrisha icchayaha parivartanam jatam यतोहि बहुकालात् अभ्यासः कृतः इति कृत्वा इदानीं तस्मिन् विषये इच्छा इति कृत्वा एव आरम्भस्तरे अनुशासनस्य आवश्यकता वर्तते पुनः पुनः पुनः यदा वयं कुर्मः तदानीम् अभ्यासः भवति तर्हि पुनः कालान्तरेण तदेव अस्माकं स्वभावः भवति यदा स्वभावः भवति तदानीं तस्मात् पतनं कदापि न भवति इति कृत्वा तत्र आरम्भस्तरे बहु बहु बहु मुख्य मुख्यस्तरः वर्तते आरम्भस्तरे तत्र अनुशासनं न कुर्मः यथा मनः वदति तथा वयं कुर्मः चेत् तदानीं कदापि तत्र पालनं न भवति कदापि वयम् अनुभोक्तुं न शक्न, शक्नुमः अस्य अस्य प्रयोगेन कः लाभः इति कदापि अनुभोक्तुं न शक्य शक् शक्नुमः यतोहि एकवारं कुर्मः तदनन्तरं स्थगनं कुर्मः बहुकालं न कुर्मः तर्हि पुनः किञ्चित् कुर्मः तर्हि स्थगनं कुर्मः एवमेवं कुर्मः चेत् एतादृशविषयेन अस्माकं कः लाभः भवति इति न अवगम्यते तर्हि किञ् किञ्चित् कालपर्यन्तं यदा वयं कुर्मः अनुशासनरूपेण तदनन्तरं यदा अभ्यासः जायते तदानीं तत्र वयं ज्ञातुं शक्नुमः एतादृशलाभः अस्ति बहुकालात् मम एतादृश अनुभवः अस्ति इति वयं ज्ञातुं शक्नुमः परन्तु निरन्तरकालपर्यन्तं न कुर्मः चेत् न ज्ञातुं शक्नुमः एकस्मिन् दिने वयं स्वीकु सात्विकाहारं स्वीकुर्मः चेदपि परिवर्तनं ज्ञातुं शक्नुमः नास्ति इति न ज्ञातुं शक्नुमः परन्तु किन् निरन्तरकालं किञ्चित् कालपर्यन्तं वयं कुर्मः चेत् तत्र तत्र वास्तविकाः कुत्र कुत्र अस्माकं लाभः जातः केषु विषयेषु विषयेषु लाभः जातः एतत् सर्वं सम्यक्तया ज्ञातुं शक्नुमः एकस्मिन् भोजने अपि परिवर्तनं ज्ञातुं शक्नुमः नास्ति इति न ज्ञातुं शक्नुमः परन्तु किञ्चित् कालपर्यन्तं कुर्मः चेत् तदानीम् अस्माकं हेल्त् मेट्रिक्स् एतत् सर्वं परिवर्त्यते एकस्मिन्नेव भोजन एकस्मिन् दिने भोजनं कुर्मः चेत् तत्र ग्यास् एतत् सर्वं न भवति तत्तु अस्ति परन्तु इदानीं तत्र मधुमेहाः इत्यादयः ये रोगाः सन्ति तेषां परिवर्तनं इच्छामः चेत् तदानीं किञ्चित् कर्तव्यं तदानीमेव वयं ज्ञातुं शक्नुमः तद् रोगः गतः वा इति कृत्वा आरम्भ आरम्भिकस्तरे अनुशासनस्य आ, बहु आवश्यकता अस्ति इत्युक्ते कश्चन पुरुषः यदा आरम्भे तत्र वैद्यः वदति व्यायामं करोतु इति तर्हि आरम्भे तस्य इच्छा न भवति तत्र सः आलस्य तस्य मनसि आलस्यता भवति ओ किमर्थं कर्तव्यं किमर्थं व्यायामः कर्तव्यः इति तादृश प्रश्नाः भवन्ति तस्य मनसि आरम्भिकस्तरे इच्छा न भवति परन्तु किञ्चित् कालपर्यन्तं सः करोति प्रतिदिनम् अनुशासनरूपेण तदानीं कालान्तरेण तदेव अभ्यासः भवति तदनन्तरं तदेव स्वभावः भवति तर्हि एकस्मिन् दिने अपि व्यायामं न करोति चेत् तस्य सम्यक् भवति ओ मया न कृतम् अद्य मया व्यायामः न कृतः इति तस्य मनसि आयाति तर्हि पुनः सः कथञ्चिदपि गच्छति इत्युक्ते वृष्टिः भवति चेदपि सः गच्छति ओ नो नो न मया व्यायामः कर्तव्यः वृष्टिः वा भवतु यत्किमपि भवतु अहं गच्छामि इति तादृश भावः मनसि आयाति यतोहि इदानीं तु स्वभावः जातः खलु स्वभावः यदा भवति तदानीं तत्र पतनं न भवति तस्मात् इदानीं यदा वयं सम्यक् विषयान् वयं शृण्मः तदानीम् अस्माकं तत्र बुद्धिस्तरे आकर्षणम् अस्ति ओ सम्यक् अस्ति विषयः आकर्षणम् अस्ति परन्तु मानसिक तु इच्छा नास्ति ओ किमर्थं मया एतत् कर्तव्यं आ, मया तु ए, एवं न कृतं पूर्वं यत् पूर्वमया मया स्वीकृतं तु सम्यक् एव आसीत् किमर्थं मया परिवर्तनं कर्तव्यम् इति एतादृशविचाराः भवन्ति तदर्थम् अनुशासनम् अत्यावश्यकम् अस्ति अनुशासनेन अनन्तरम् अभ्यासेन अस्माकम् इच्छाः अनिच्छाः एतत् सर्वं परिवर्तन्ते यथा कोपि यदा शैशवस्थायां बाल्यावस्थायां तेन तादृशभोजनं कदापि न स्वीकृतं परन्तु यवनावस्थायां तादृशभोजनं स्वीकृतं राजसिकभोजनं वा यत्किमपि भवतु स्वीकृतं किञ्चित् कालं पर्यन्तं स्वीकृतं तत्र एव अभ्यासः जातः तत् स्वभावः जातः इदानीं परिवर्तनं करोतु इति चेत् कर्तुं न शक्यते इति सः चिन्तयति परन्तु सः विचारं करोति चेत् ज्ञातुं शक्नोति यत् बाल्यावस्थायां तु तेन न यवनावसायमेव तेन स्वीकृतमासीत् तदेव किञ्चित् कालान्तरम् अभ्यासः जातः इति एवम् इदानीं सात्विक आहारमपि वयं स्वीकुर्मः किञ्चित् कालान्तरं तदेव अस्माकं स्वभावः भवति स्वभावः भवति चेत् तत्र किमपि किमपि किमपि विचित्रं भासते किमर्थं एतत् स्वीकर्तव्यम् अन्ये न स्वीकुर्वन्ति इति तादृशविचारः न इति अतः यु वुड् बि स्टडि वाटेड् यु ट्रै टु बि स्टडि इन् इट् <Glering> तदानीमेव तत्र डिसिप्लिन् अत्यावश्यकमस्ति डिसिप्लिन् अत्यावश्यकमस्ति तदानीमेव तत्तु स्वभावः भवति न इत्युक्ते मध्ये मध्ये स्थगनं स्वगनं कुर्मः कुर्मः अनु अद्य अद्य नास्ति चिन्ता अहं स्वीकरोमि औश्वः नास्ति चिन्तां स्वीकरोमि इति एवं रीत्या कुर्मः चेत् तदानीं ब्रेक् भवति अनुशासने अपि ब्रेक् भवति तर्हि तत्र स्वभावः कदापि न भवति एवं कुर्मः कुर्मः चेत् कदा कदा स्वभावः भवति एतो यतोहि मध्ये मध्ये स्थगनमस्ति खलु अतः अनुशासनम् अभ्यासः अनन्तरं स्वभावः इति अस्ति वस्तुतः मनुष्याः मनुष्येषु मनः प्रधानं वर्तते मनः प्रधानं मनसः प्राधान्यं वर्तते मनसः प्राधान्यं वर्तते तर्हि मनः एव कारणं मोक्षस्यापि कारणं बन्धनस्यापि कारणम् तर्हि इदानीम् अस्माकं मनुष्याः अस्मासु स्वतन्त्र इच्छा वर्तते खलु अतः वयं निर्णेतुं शक्नुमः मनः बन्धनस्य कारणं भवतु वा मोक्षस्य कारणं भवतु वा इति अस्माभिः निर्णेतव्यं तादृश इच्छा अस्माकम् अस्ति स्वतन्त्र इच्छा अस्ति तर्हि यदि वयं बन्धनस्य कारणं मनः भवतु इति स्वीकुर्मः चेत् तदानीं तत्र पशुजीवनं प्रति वयं गच्छामः परन्तु तथा नास्ति अहं पशुजीवनं न पालयामि एतावता यत् एत कृतं तत्तु पर्याप्तम् इतः अग्रे पशुजीवनस्य पालनं ता, न करोमि अहं मनुष्यजीवनं स्वीकरोमि मनः मम मनः मम मोक्षस्य कारणं भवतु इति यदा चिन्तनं भवति तदानीं किं भवति इति चेत् तद्यत् तत् तस्य कृते अग्रगतिं प्राप्तुं यत्किमपि कर्तव्यं तद् गाढरीत्या विचिन्त्य कुर्मः यद्यपि यदा वयं पश्यामः चेत् अत्र एव भोजनं स्वीकरोति शरीरमेव व्यायामं करोति परन्तु इच्छा अनिच्छा तु एव भवति इच्छा अनिच्छा तु मनसि एव भवति यद्यपि बौद्धिकस्तरे ये विषयाः उक्ताः तस्य अवगमनम् अस्ति तस्य प्रशंसा अपि अस्ति सम्यक् अस्ति इति मनसि भासते परन्तु तथापि तत्र कान्सेप्ट् चिलि वि मे लैक् इट् बट् तथापि यदा विनियोगः इम्प्लिमेण्टेशन् इति विषयः भवति तदानीं मनसि इच्छा भवति तदर्थमेव अत्र अनुशासनम् अभ्यासः भावः इति बहु बहु अस्ति तर्हि इदानीम् एतावता एवं रीत्या अस्माभिः चिन्तनं कृतम् इदानीं किञ्चित् भिन्नरीत्या अपि चिन्तनं कुर्मः तत्र आध्यात्मिकस्तरे आध्यात्मिकजीवने आध्यात्मिक अग्रगत्यर्थं तत्र चत्वारः स्तराः सन्ति चत्वारः स्तराः सन्ति ते के इति चेत् यतमानः व्यतिरेकः एकेन्द्रियः वशिकारः इति अत्र चत्वारः स्तराः सन्ति प्रथमस्तरः यतमानः यतमानः इति स्तरे अनुशासनस्य अव अति आवश्यकता अस्ति यतमानः इत्युक्ते यः पुरुषः प्रयतते यतते तत्र यत् इति धातुः प्रयतते यतमानः वर्तते तर्हि यतमानः इति आध्यात्मिक स्तरे प्रथमः आध्यात्मिक स्तरे सः एव प्रथमः स्तरः अस्ति तर्हि तत्र यतमानः इति स्तरे किं कुर्मः इति चेत् यतमत यतमानः इति प्रथमः स्तरः अस्ति तस्मिन् स्तरे किं भवति इति चेत् मा मनसि ये प्रवृत्तयः सन्ति मनसि ये प्रवृत्तयः सन्ति तेषां चित्तं प्रति निर्देशनम् अस्ति तेषां चित्तं प्रति डैरेक्टेड् टुवर्ड्स् द चित्ता द मेण्टल् प्रोपेन्सिटीस् आर् डैरेक्टेड् टुवर्ड्स् द चित्ता इन् दस्ट् स्टेज् यतमानः इति स्तरे मानसिकप्रवृत्तयः चित्तं प्रति निर्दिष्टाः भवन्ति अयं स्तरः बहु बहु कठिनः स्तरः अस्ति बहवः जनाः आगच्छन्ति गच्छन्ति तत्र स्थातुं न शक्नुवन्ति किञ्चित् कालं कुर्वन्ति तदनन्तरम् अधोगतिः भवति अतः अस्मिन् स्तरे बहवः क्लेशाः अनुभूयते मानसिकक्लेशाः अनन्तरम् अन्तरङ्गक्लेशाः बहिरङ्गक्लेशाः बहिः बहिर्भूताः क्लेशाः अन्तर्भूताः क्लेशाः द्वयमपि द्वयमपि अस्मिन् स्तरे क्लेशद्वयम् अत्र भवन्ति ये ये आन्तरिकक्लेशाः भवन्ति इति कृत्वा मनः तु शिक्षितं नास्ति प्रशिक्षितं नास्ति मनः मनः एतावता प्रशिक्षितं नास्ति अतः मनः इतः ततः गच्छति मनः दुर्व्यवहारं वन्यजन्तुवत् दुर्व्यवहारं मनः करोति एकस्मिन् क्षणे नियन्त्रणं भवति अन्यस्मिन् क्षणे नियन्त्रणम् अपगच्छति इति कृत्वा तत्र आन्तरिकक्लेशाः बहवः सन्ति नियन्त्रणं सम्पूर्णरीत्या अस्माकम् इन्द्रियाणां नियन्त्रणं न जातम् एकस्मिन् क्षणे नियन्त्रणम् अस्ति इति भाति अग्रिमक्षणे नियन्त्रणं नास्ति यतोहि अत्र मनसः प्रशिक्षणं न जातम् एतावता प्रशिक्षणं ट्रैनिङ्ग् द मैण्ड् इस् नाट् मैण्ड् इस् नाट् ट्रेण्ड् इति कृत्वा इट् इस् जस्ट् रन्निङ्ग् इट्स् मिस्बिहेविङ्ग् लैक् अ वैल्ड् एनिमल् एवम् अत्र बाह्यक्लेशाः अपि भवन्ति प्राथमिकस्तरे बाह्यक्लेशाः अपि भवन्ति कीदृशक्लेशाः इति चेत् अस्माकं ये मित्राणि सन्ति अस्माकं ये बान्धवाः सन्ति ते तु न इच्छन्ति यत् वयम् अस्मिन् मार्गे प्रवृत्ताः भवामः इति ते न इच्छन्ति अस्माकं बन्धुजनाः न इच्छन्ति ते चिन्तयन्ति किं किं करोति भवति अथवा किं करोति भवान् भवान् किं सन्यासी भवितुम् इच्छति वा किमर्थम् एवं रीत्या भोजनं स्वीकरोति किमर्थम् एवं रीत्या साधनां करोति किमर्थं तत्र न गच्छति अत्र न गच्छति इति किमर्थम् एवं रीत्या करोति इति तेषां इत्युक्ते तेषां प्रयत्नः अपि भवति अस्माकं बाधारूपेण इत्येवं रीत्या ते वदन्ति इति कृत्वा कदाचित् तादृश बन्धुजनानां प्रयासेन कस्यचित् अधोगतिः भवितुम् अर्हति अतः अयं स्तरः बहु मुख्यः स्तरः अस्ति अत्र आन्तरिक विक्षेपाः आन्तरिकविक्षेपाः एते सन्ति बाह्यविक्षेपाः अपि सन्ति तर्हि अस्मिन् स्तरे किम् अपेक्षितम् इति चेत् धैर्यम् अपेक्षितमस्ति धैर्यमपेक्षितमस्ति दृढता दृढता अपेक्षितमस्ति दृढसङ्कल्पः अपेक्षितः अस्ति अस्मिन् स्तरे यतमानस्तरः बहु मुख्यः स्तरः तस्मिन् स्तरे सङ्कल्पः धैर्यम् दृढता अपेक्षितमस्ति यत्किमपि भवतु नाम अहम् अत्र गच्छामि अत्र मम अस्मिन् मार्गे मम कल्याणं कल्याणमेव भवति मम हानिः न भवति इति दृढविश्वासः यदा भवति तदानीम् अग्रगतिः निश्चयेन भवति इति प्रथमः स्तरः तदनन्तरं यः साधकः अस्ति ततः अग्रे यतमानस्तरात् अग्रे गच्छति द्वितीयः स्तरः अस्ति व्यतिरेकः इति स्तरः द्वितीयः स्तरः अस्मिन् स्तरे मानसिकप्रवृत्तयः चित्तात् अहं तत्त्वं प्रति निर्दिष्टाः भवन्ति तत्र अत्र यतमानस्तरस्य अपेक्षया अत्र प्रयत्नः किञ्चित् न्यूनः एव तत्र प्रथमस्तरे यादृशप्रयत्नः आवश्यकः आसीत् तादृशप्रयत्नः अत्र नावश्यकः यतोहि किञ्चित् तत्र दृढः जातः सः तत्र इदानीं तत्र अयं मार्गः तस्य कृते किञ्चित् प्रियं प्रियकरम् अभवत् प्रियकरः अस्ति इदानीम् अयं मार्गः तर्हि तत्र अग्रे गच्छति ये तत्र पूर्वं तु वन्यप वन्यजन्तुवत् तत्र तस्य मनः दुर्व्यवहारं क करोति कुर्वत् आसीत् इदानीं तत्र किञ्चित् नियन्त्रणं जातं किञ्चित् नियन्त्रणं जातं तर्हि मानसिकप्रवृत्तयः इदानीं चित्तात् अहं तत्त्वं प्रति गच्छन्ति तर्हि इदानीम् अस्मिन् स्तरे साधकः तत्र तत्र आनन्दं कदा कदा तदा तदा आनन्दम् अनुभवति तदा तदा आनन्दं हि एक्स्पीरियन्स् इस् ग्लिम्स् आफ़् हेपिनेस् एम्स् आफ़् ब्लेस् देन् अण्ड् इन् ड्यूरिङ्ग् इन्टर्वल् तस्य चक्षुतः तत्र अश्रुः अपि अश्रुपातः भवति तस्य चक्षुषः अश्रुपातः अपि भवति तर्हि अस्मिन् स्तरे तु बाह्य ये क्लेशाः आसन् बन्धुजनाः मित्राणि ते इदानीम् अवगच्छन्ति ओ अयं तु गतः तत् तस्य परिवर्तनं न शक्यते तत् साधकः अभवत् मा वयं तु किमपि कर्तुं न शक्नुमः इति ते सर्वे त्यजन्ति ते सर्वे त्यजन्ति इत्युक्ते इदानीं बाह्य बाह्यक्लेशाः किञ्चित् न्यूनाः न्यूनाः क्लेशाः न्यूनाः अभवन् यतोहि बन्धुजनाः मित्राणि एते सर्वे अवगतवन्तः तर्हि इदानीं सः साधकः दृढः अभवत् तत्र लौकिकवस्तुभ्यः वस्तु वस्तूनाम् अनुसन्धाने तस्य तादृश आसक्तिः नास्ति इति अत्र द्वितीयः स्तरः अस्ति व्यतिरेकः इति स्तरः तदनन्तरं ततः अग्रे साधकः तृतीयस्तरे गच्छति एकेन्द्रियः इति स्तरः ऐ ऐड् स्तरः तु अग्रगतिः अस्ति अत्र अस्मिन् स्तरे अग्रगतिः पूर्वस्मात् स्तरात् अग्रगतिः अत्र किं भवति इति चेत् मानसिकप्रवृत्तयः अहं तत्त्वात् महत्तत्त्व महत्तत्त्वं प्रति ते प्रवृत्तयः निर्दिष्टाः भवन्ति द आल् दृष्टीस् आर् डेरेक्टेड् फ्रम् अहं तत्त्वं टु द महत्तत्त्वं द फस्ट् स्तरा देवर् डैरेक्टेड् टु दित्ता देन् सेकेण्ड् स्तरा फ्रम् चित्ता टु अहं तत्त्वा दर्ड् स्तर फ्रम् अहं तत्त्व टु महत्तत्त्वा यथा तत्र नाम अस्ति एकेन्द्रियः इति तदानीम् अत्र अस्मिन् स्तरे यः साधकः अस्ति सः एकस्याः प्रवृत्तेः नियन्त्रणं प्राप्नोति एकस्याः प्रवृत्तेः नियन्त्रणं प्राप्नोति हि गेट्स् कण्ट्रोल् आफ़् वन् फ्यू इन्द्रियास् यदा तस्य नियन्त्रणं सम्पूर्णतया नियन्त्रणं भवति तदानीं किं भवति तस्य सिद्धयः अपि भवन्ति सिद्धयः सिद्धयः इत्युक्ते तत्र विभूतिः इति वयं वदामः अथवा ऐश्वर्यम् इति वयं वदामः तत्तु विभूतिः इत्युक्ते तत्र गूढशक्तिः इट्स् अ हिडन् पवर् सूपर् नचुरल् पवर् गेन्ड् फ्रम् प्राक्टिसिङ्ग् साधना तत्र विभूतयः सन्ति अष्टविभूतयः सन्ति अनिमा लघिमा महिमा प्राप्तिः इषित्वा वषित्वा प्रकाम्य अन्तर्यामित्वा इत्युक्ते अत्र अनेन यदा सिद्धयः लभ्यन्ते तदानीं वयं तत्र साधकस्य अग्रगतिः बहु अग्रगतिः अभवत् परन्तु अयं यद्यपि सम्यक् परन्तु अत्र क्लेशः अपि अस्ति अत्र क्लेशः अपि अस्ति यतोहि साधकस्य अधोगतिः अधोगतिः अपि भवितुमर्हति इत्युक्ते अयं अयं स्तरः किञ्चित् भयङ्करम् अस्ति यतोहि किं इति चेत् तत्र क्लेशः न केवलम् अन्ते अस्ति बहिः अपि अस्ति क्लेशः यतोहि तत्र यदा साधकः इदानीम् अवगच्छति यद् तस्य पार्श्वे सिद्धयः सन्ति तदानीं तत्र तस्य प्रयोगार्थम् अथवा दुरुपयो दुरुपयोगार्थं सः लोभितः भवति ओ इदानीं मया प्रयत्नः करणीयः तत्र सिद्धिः एतादृशसिद्धिः कथं कार्यं करोति इति अहमेकवारं पश्यामि इति तादृशलोभः भवति स्वस्य अथवा बाह्यजनाः अपि तस्य शक्तेः प्रयोगार्थं तत्र चोदयन्ति अन्ये जनाः अपि चोदयन्ति अतः सः उत्सुकः भवति ओ अस्य अस्य सिद्धिः कथं कार्यं करोति इति अहं पश्यामि इति तादृश विचारः अपि भवति इत्युक्ते दुरुपयोगार्थम् अन्ये अपि तस्य प्रेरणां कर्तुं शक्नुवन्ति अथवा स्वयमपि तस्य प्रेरणा भवति यत् ओ अहम् उपयोगं कृत्वा पश्यामि इति अनेन किं भवति इति चेत् यदा कश्चन साधकः सिद्धीनां प्रयोगार्थम् उत्सुकः अस्ति तदानीं सः तु तस्य अधोगतिः भवति किमर्थमिति चेत् तस्य लक्ष्यं तु तस्य लक्ष्यं साधकस्य लक्ष्यं किमस्ति परमपुरुषः परमपुरुषेण सः ऐक्यमेव तस्य लक्ष्यमस्ति तादृशलक्ष्यं विस्मृत्य यदा सः सिद्धिनां प्रयोगे व्यस्तः भवति तदानीं यदि तादृशसिद्धिः जनानां कल्याणार्थं प्रयोगं करोति चेदपि यतोहि तस्य लक्ष्यं सिद्धिः नास्ति सिद्धिः नास्ति यदा सिद्धिनां प्रयोगः भवति तदानीं किं भवति इति चेत् अस्य वर्धनं भवति तत्र लोककल्याणार्थं भवतु अन्येषां हानि हानिकारकं भवतु उभयता अपि तस्य अहङ्कारस्य वर्धनं भवति अतः सिद्धिनां प्रयोगः दुरुपयोगः एव तेन आध्यात्मिकजीवनात् पतनमेव भवति पतनम् एव भवति अतः सिद्धिनां प्रयोगः कदापि न करणीयः इति तत्र तृतीयस्तरे ऐकेन्द्रियः इत्यत्र कस्यचित् कस्य कस्याः कस्याः वृत्तेः नियन्त्रणं भवति येन सिद्धिः अपि लभ्यते परन्तु साधकस्य लक्ष्यं तु सिद्धिः नास्ति तत्र तस्य विषये सिद्धीनां विषये तस्य चिन्तनमपि न भवति यतोहि तस्य लक्ष्यं तु परमात्मा अस्ति तर्हि तत्तु तृतीयः सरः चतुर्थः स्तरः वर्तते वशीकारः इति सरः अन्तिमः स्तरः अत्र किं भवति इति चेत् तत्र यः साधकः वशीकारः इति स्तरे अस्ति तस्य मानसिकप्रवृत्तयः सर्वे प्रवृ सर्वाः प्रवृत्तयः इदानीम् अहं न न महत्तत्त्वात् क्षम्यता महत्तत्त्वात् इदानीं तत्र परमपुरुषं प्रति वृत्तिः वृत्तयः निर्दिष्टाः तर्हि इदानीं त पु सः पुरुष सः साधकः स्वस्य स्वभावे स्वस्य स्वरूपे सः प्रतिष्ठितः वर्तते तत्र वशीकारः नाम वशः नाम नियन्त्रणम् इत्यर्थः तस्य तस्य तस्य पुरुषस्य तस्य साधकस्य सर्वाः वृत्तयः सम्पूर्णतया नियन्त्रिताः सन्ति तर्हि इदानीं तस्य ये मित्राणि सन्ति बान्धवाः सन्ति ते सर्वे गतवन्तः यतोहि अस्मात् पुरुषात् ते किमपि प्राप्तुं न शक्नुवन्ति इति कृत्वा तेषां कार्यं न सन्ति इति कृत्वा ते, ते गतवन्तः इदानीं सः यः साधकः अस्मिन् स्तरे अस्ति सः अग्र अग्रे गत्वा सः परमात्मना ऐक्यं विलीनं सः विलीनं भवति तस्य जीवात्मनः परमात्मना सह ऐक्यं भवति इति कृत्वा अत्र चत्वारः स्तराः सन्ति एतेषु स्तरेषु प्रथमः स्तरः चित्तकरः वर्तते यतोहि अस्मिन् स्तरे वयं पश्यामः चेत् येन पुरुषेण कदापि उपवासः न कृतः निर्जलुपवासः न कृतः तर्हि यदा सः प्रथमवारं करोति तदानीं तु सः तु क्लेशः तेन पुरुषेण क्लेशः अनुभूयते इदानीं यदा सः साधनं कर्तुं पद्मासने पद्मासने उपविष्टः अस्ति तदानीं तस्य किं जानु जानुद्वयं तत्र क्लेशाः भवन्ति हि एक्स्पीरियन्स् इस् पेन् इन् इस् नीस् तस्य बेट् हि एक्स्पीरियन्स् पेन् इन् द ब्यात् सर्वं भवति फिजिकल् शारीरिकरूपेण एते क्लेशाः भवन्ति तर्हि मानसिकरूपेण अपि क्लेशाः भवन्ति तर्हि सः इत्युक्ते तत्र साधनायां सः उपवेष्टुं न शक्नोति तस्य मनः तस्मिन् न भवति इति एते बहवः क्लेशाः प्राथमिकस्तरे भवन्ति तर्हि तत्र मनः एव कारणम् अस्ति तस् अस्मिन् स्तरे अपि मनः एव कारणमस्ति अग्रगतिं वयं प्राप्तुं शक्नुमः अथवा अधोगतिं प्राप्तुं शक्नुमः तत्र तस्मिन् यद् अधीतं तस्य विषये साफल्यं वा भवति अथवा साफल्यं न वा भवति इति द्वयमपि भवितुमर्हति तत्सर्वम् अत्र मनसि एव मनसि यादृशशक्तिः अस्ति तदाधारेण भवति यदा अन्तश्चक्षुः कस्यचित् पुरुषस्य अन्तश्चक्षुः उद्घटितं भवति तदानीं तत्र तस्य इच्छा जागरिता भवति ओ मया एतत् सर्वं कर्तव्यम् इति इच्छा जागरिता भवति सः साधनां करोति सः व्यायामं करोति सः सात्विकाहारं स्वीकरोति आसनानि क करोति एतत् सर्वं सः करोति एतत् सर्वं तु मानसिकप्रक्रिया अस्ति यदा इ द मैण्ड् बिकम्स् ओपेन् रैट् right? एण्ड् द इनर् ऐस् हाव् आल्सो ओपेन् तदानीं किं भवति इति चेत् तदानीं प्राथमिकस्तरे अनुशासनं भवति तदेव यतमानः इति वयं वदामः यतमानः इति वयं वदामः प्राथमिकः स्तरः सः यदा मनः उद्घाटितम् अनन्तरम् अन्तश्चक्षुः अपि उद्घाटितं तदानीं यतमानः सः यतते अपि सः यतते अपि तर्हि सः अग्रगतिं प्राप्नोति तत्र द्वितीयस्तरे सः तु तत्र किञ्चित् प्रतिष्ठितः भवति तस्य इदानीम् अभ्यासः जातः अभ्यासः जातः तर्हि तस्य अग्रगतिः अवश्यं भवति एते स्तराः बहु मुख्याः स्तराः मुख्याः स्तराः इत्युक्ते टु एक्स्प्लेन् इट् लैक् लैक् एन् एरोप्लेन् टेकिङ्ग् आफ़् रैट् दि इनिशियल् फेस् इन् द एरोप्लेन् इस् टेकिङ्ग् आफ़् दट् इस् वि एक्स्पीरियन्स् दाट् आफ़् युनो टर्मायिल् रैट् बिकास् You, you feel your ears are blocking, your stomach is hurting and all sorts of things. That is like the Yatamana stage. Then once it takes off and it stabilizes, Tadeva atr Vyatireka ha itivayam vadaamaha. Tadevah kinchu pratishti taha abavat. Tarih dhanim agradati hi jayamana ha asti. Tarih dhanim atr prashnah ha asti. Yatadi ete saraha sarve nyata ha. Tarih aadav. यतमानस्तरे कथम् अस्माकं मनसि सर्वदा मनः सकारात्मकं भवेत् सकारात्मकं भवेत् आल्स् बि पासिटिव् तर्हि कथं तत्र पासिटिव् पासिटिविटि कथं मनसि आयाति कथं पासिटिविटि आयाति इति चेत् सर्वदा एवं रीत्या चिन्तनीयं यद् मम पिता परमपुरुषः अस्ति मम कुलः उच्चकुलः अस्ति मम पिता परमपुरुषः अस्ति अतः मया किमपि कस्यचित् विषये अपि चिन्तनं न इतिते इत्युक्ते तत्र दृढसङ्कल्पः मम मनसि भवेत् एतादृशविचारः अस्ति चेत् तत्र नक्षत्राणि यानि सन् यानि सन्ति तेषां मार्गनिर्देशनं यः परमपुरुषः करोति सः एव मम पर मम करोति इति दृढविश्वासः यदा भवति तदानीं तत्र मनसि भयमपि न भवति मनसि मन मनः सकारात्मकम् एव भवति सर्वदा तत्र पासिटिविटि एव भवति इति उक्त्वा अत्र अस्माकं वर्गे ये जनाः येतावता एतावता सात्विकाहारस्य विषये चिन्तनमपि न कृतं यैः ते सर्वे कृपया पुनः एकवारम् अत्र अस्माकम् आदौ ये ध्वनिमुद्रणानि सन्ति सात्विकाहारस्य विषये तदेकवारं पुनः शृण्वन्तु श्रुत्वा तत्र कथं कुत्र पालनं न कृतं कुत्र मया पालनं कृतम् एतत् सर्वं विचार्य किञ्चित् चिन्तनं कुर्वन्तु तस्य विषये कृत्वा अग्रिमसप्ताहे आगत्य वदन्तु कुत्र कुत्र कुत्र इतोपि अग्रे अधिकम् अधिक अधिकः विनियोगः कृतः भवता इति अग्रिमसप्ताहे वदतु एकवारं अस्तु तर्हि अत्र प्रश्नः अस्ति ओके okay. तर्हि इदानीम् अस्माकं विषयः अस्ति अस्माकं करपत्रमस्ति हा तत्र ब्रह्माण्डेन परमपुरुषेण सह मम सम्बन्धः कः इति विषयः अस्ति तत्र अस्माभिः दृष्टं मनुष्यः यदा कर्म करोति तस्य तु प्रतिक्रिया अवश्यं प्रतिक्रिया अवश्यं प्रतिक्रिया भवति तस्य प्रतिक्रियायाः अनुभवः अस्मिन् जन्मनि भवति अथवा अग्रिमजन्मनि प्रतिक्रियाः अनुभवः भवति तर्हि यदा मनुष्यः मृतः भवति तदानीं तस्मात् मनः बहिः गच्छति मनः अपि च जीवात्मा शरीरात् बहिः गच्छति इति अत्र उक्तमस्ति गतवर्गे प्रश्नः आसीत् शरीरात् बहिः गच्छति इति उक्तं कुत्र गच्छति बहिः कुत्र गत्वा तिष्ठति इति प्रश्नः आसीत् तर्हि मनः तु तत्र इट् इस् नाट् देर् आन् द फिजिकल् प्लेन् मनः तु इट् इस् देर् आन् द मेण्टल् प्लेन् मनः इस् इस् आन् द मेण्टल् प्लेन् सो मनः तु इट्स् नाट् इट् इस् नाट् एक्सिस्टिङ्ग् इन् सम् फिजिकल् लोकेशन् लैक् इन् सम्बडि इस् हौस् रैट् द doesn't have हाव् अफिजिकल् लोकेशन् इट् इस् नाट् हेविङ्ग् अ फिज़िकल् काम्पोनेण्ट् इट् ओन्ल एक्सिस्ट् इन् द मेण्टल् स्फियर् तत् किं वक्तुं शक्नुमः इति चेत् मनः परमपुरुषस्य चिन्तनप्रक्षेपणे मानसिकस्तरे वर्तते इति वक्तुं शक्नुमः यदा मनः अस्माकं शरीरात् बहिः गच्छति तदानीं परमपुरुषस्य चिन्तनप्रक्षेपणे मानसिकस्तरे भवति इट् विल् बी देर् इन् दि मेण्टल् प्लेन् इन् दोट् प्रोजेक्षन् आफ़् द कास्मिक् मैण्ड् so the mind the unit mind is not existing on the physical plane but in the mental plane so where will the mind go after death it will be in the thought projection of the in the mental plane uh, in the thought projection of the cosmic mind iti eva vaktavyam mm ri kutr chit gachyati iti nastitat manah iti prashna hasti tasyas vishaye uktam anantram प्रश्नः आसीत् तत्र मर्त्यलोकं गच्छति स्वर्गलोकं गच्छति एतत् सर्वं तत्र अत्र तु एतादृशविषयः नास्ति स्वर्गलोकः अस्ति नरकलोकः अस्ति इति विज्ञानरीत्या अपि अङ्गीकारः नास्ति तादृशलोकः एव नास्ति स्वर्गः नरकः इति तु अस्माकं मानसिक अवस्था वर्तते तर्हि मरणानन्तरम् अस्मजीवात्मा मनः तु मनः तु स्वर्गलोके गच्छति इति नास्ति यदा शरीरात् बहिः गच्छति मनः तदानीं तस्य अनुभवः न भवति एव शरीरम् आवश्यकमस्ति मनसि यानि कर्मफलानि सन्ति तेषाम् अनुभवार्थं शरीरम् अपेक्षितं यावत्पर्यन्तं मनः अस्माकं मस्तिष्कस्य मस्तिष्के आधाररूपेण न तिष्ठति तावत्पर्यन्तं कर्मफलानां भोगः न भवति अतः यदा मनः शरीरात् बहिः गच्छति तदानीं स्वर्गलोके फलभोगः भवति इति न अङ्गीक्रियते न अङ्गीक्रियते यतोहि मनसि यानि कर्मफलानि सन्ति तेषां भोगार्थं शरीरं आवश्यकम् अस्ति यावत्पर्यन्तं तादृशशरीरं न लब्धं तावत्पर्यन्तं भोगः न भवति स्वर्गः नरकः इति तु केवलं मानसिकावस्था वस्तुतः तादृशस्थलं नास्ति स्वर्गः नरकः इति स्थलं नास्ति अतः यदा यदा शरीरस्य मरणं जातं तदानीं मनः शरीरात् गच्छति तत्र यानि कर्मफलानि सन्ति तेषां भोगः न भवति तानि तथैव तिष्ठन्ति मनसि यावत्पर्यन्तं नूतनशरीरं न लभ्यते तावत्पर्यन्तं कर्मफलानां भोगः न भवति इति वक्तव्यम् अपि च तत्र अस्माभिः उक्तं यत् यदा मनः गच्छति तदानीं तत् भूत भूतः भूतः भवति वा प्रेतः भवति वा इति चेत् तथापि नास्ति तत्र यावत्पर्यन्तं पुनर्जन्म न जायते तावत्पर्यन्तं मनः तिष्ठति यदा पुनर्जन्म जायते तदानीं नूतनशरीरे मनः तत्र मस्तिष्के आयाति अतः अत्र भूतः प्रेतः इत्यादयः अपि अनित्याः तादृशविषयः नास्ति इति भूतः अस्ति प्रेतः अस्ति भूतेन एतत् कृतं इति एतादृशः नास्ति पुनर्जन्म एव भवति तत्र जीवात्मा भूतः भवति प्रेतः भवति इत्यादयः इत्यादयः विषयाः दोषपूर्णाः विषयाः सन्ति अस्तु तर्हि इदानीं किञ्चित् अग्रे गच्छामः मम स्क्रीन् दृश्यते वा अस्तु अत्र सुचित्रभगिनी पठितुमिच्छति वा नमस्कारः भगिनि नमस्कारः आश्रयते भगिनि प्रकृतिचैतन्यो प्रकृति चैतन्ययोः अभि अभिना अभिनाभावसम्बन्धः वर्तते mm. यदा जीवात्मा प्रकृति प्रकृतिसृष्टं भौतिकशरीरं त्यजति तदा मनः अपि शरीरं त्यक्त्वा जीवात्मनः आश्रयम् गृह्णाति मृत्योः पूर्वं कृतकर्मणां कारणेन मनः अस्मिन् स्तरे अपि विकृतमस्ति वास्तविकस्थितिं प्रत्यागन्तुं मनसा याः प्रतिक्रियाः अनुभोक्तव्याः ताः प्रतिक्रियाः मनुष्यैः स्वकर्मणां परिणामेन सुखदुःखरूपेण अनुभूयन्ते मस्तिष्कस्य अभावात् मृत्योः अनन्तरं मनः अकार्यकरं भवति अतः मनसा विकृतावस्थायां स्थातव्यम् अस्याम् अवस्थायां सर्वासां प्रतिक्रियमाणा प्रतिक्रियां सम्भावना वर्तते प्रतिक्रियाणां सम्भावनायां सत्यां मनः शरीरं त्यक्त्वा जीवात्मनः आश्रयं गृह्णाति एताः सम्भाव्यप्रतिक्रियाः संस्काराः इति उच्यते कर्मणां कारणेन मृत्योः क्षणपर्यन्तं मनसा या विकृतिः प्राप्ता सा विकृतिः मृत्योः अनन्तरं जीवात्मना सह सम्भाव्यप्रतिक्रियारूपेण संस्काररूपेण तिष्ठति मनसः अकार्यात्मकत्वात् एताः प्रतिक्रियाः पूर्वकर्मणां कर्मफलानां परिमा परिणामरूपेण अभिव्यक्तिं न शक्नुवन्ति अतः ताः प्रतिक्रियाः जीवात्मना सह तिष्ठति यावत् मनः नूतनशरीरे आश्रयं स्वीकृत्य पुनः कार्यार्थं मस्तिष्कस्य सम्पर्कं न प्राप्नोति अत्र चिन्तनमस्ति यदा मनः भौतिकशरीरं त्यजति केवलं मनः न जीवात्मा यदा द्वौ अपि यदा भौतिकशरीरं त्यजन्ति पञ्चभूतात्मकशरीरं त्यक्त्वा ते कुत्र आश्रयं स्वीकुर्वन्ति परन्तु यत् भौतिक शरीरे भूत्वा यत् कर्मणां कृतं तस्य तु फलमपि अनुभोक्तव्यमस्ति परन्तु यदा तेषां भौतिकशरीरं न वर्तते तत्र ते कर्मफलमपि अनुभू अनुभवितुं न शक्नुवन्ति अतः तत्र किं वक्तुं शक्यते चेत् मनःप्रयाण निष्क्रियरूपेण जीवात्मना सह तिष्ठति यद् कर्मं कृतं पूर्वं तस्य फलरूपेण यदा भौतिकशरीरं भवति चेत् तत्र कर्मस्य फलं सुखवा दुःखवा रूपेण ते अनुभवन्ति परन्तु यदा शरीरं नास्ति तत्र Uh, मस्तिष्कस्य अभावात् तत्र मृत्योः अनन्तरम् अस्माकं मनः अकार्यकरं भवति कार्यं कर्तुं न शक्नोति अतः तत्र विकृत अवस्थां प्राप्तम् इदानीं मनः अस्याम् अवस्था सर्वासां तत् अस्यार्थमहं न अवगतवती प्रतिक्रियाणां सम्भावना वर्तते अस्तु जीवात्मना मनः द्वौ अपि तत्र निष्क्रियरूपेण तिष्ठन्ति नूतन भगिनी क्षम्यतां यदा वयं कार्यं कुर्मः किमपि कर्म कुर्मः तदानीं मनसि विकृतिः भवति खलु कर्मावस्थात् विकृतिः भवति यदा कर्मफलम् अनुभूयते तदानीं मनः पूर्वावस्थायां भवति पूर्वावस्थां प्राप्नोति तर्हि यदा स्मरणं भवति तदानीं मनः मनः इदानीं विकृत अवस्थायाम् अस्ति तर्हि तत्र अस्याम् अवस्थायां सर्वासां प्रतिक्रियाणां सम्भावना वर्तते तर्हि तदा तस्याम् अवस्थायां सर्वाणि कर्मफलानि भवन्ति तेषाम् अनुभवः अग्रे भविष्यति परन्तु तस्मिन् स्तरे यदा शरीरं नास्ति तस्मिन् स्तरे किमपि सा सम्भावना इत्युक्ते अग्रे भविष्यति इत्यर्थः अस्तु अत्र तत्सर्वं प्रतिक्रियां तु तिष्ठन्ति परन्तु तद् न अनुभूयते अग्रे गत्वा ते सम्भाप्रतिक्रियाः तस्य अन्यनामः भवन्ति संस्कारः इति तत् संस्काररूपेण पुनः यदा नूतनशरीरं मनसः स्वीकृत प्राप् मनसः आं ते भवन्ति चेत् तत्र पुनः तद् प्रतिक्रिया सम्भाव्यप्रतिक्रिया वा संस्कारः पुनः तत्र ततः आरम्भः भवति तस्य फलानि अनुभूयन्ते यस्य फलं पूर्वं न अनुभूतवन्तः तस्य फलं पुनः अनुभूयते नूतनशरीरे अतः एतत् वक्तुं न शक्यते यदा शरीरं नास्ति चेत् अस्माकं कर्मस्य अपि अन्तः अभवत् न संस्काररूपेण तद् अग्रे अपि आगच्छति परिणामं तु अनुभोक्तव्यमेव अतः सा प्रतिक्रियाः जीवात्मना सह तिष्ठति यावत् मनः नोपः आम् तदेव समीचीनं भगिनी समीचीनम् अत्र एकः विषयः स्पष्टीकर्तुम् इच्छामि यत् संस्कारः अनन्तरं कर्मफलं द्वयोः भेदः कः इति चेत् यदा क्रिया अस्माभिः किमपि तत्र कापि क्रिया क्रियते तस्य अभुक्तप्रतिक्रिया दर्स् रियाक्षन् इन् पोटेन्षियल् फ़ार्म् तदेव संस्कारः इति वदामः यद् अग्रे अनुभवामः तदेव संस्कारः यदा कार्यं कुर्मः तदानीं प्रतिक्रिया भवति यस्य अनुभवः अग्रे भविष्यति तादृशप्रतिक्रियानां समूहः एव संस्काराः यदा प्रतिक्रियायाः अनुभवः भवति तदानीं तत्तु कर्मफलं प्रतिक्रियायाः अनुभवः यदा भवति तदानीं तत्तु कर्मफलम् तर्हि मनसि संस्काराः तिष्ठन्ति अभुक्तप्रतिक्रियाः सन्ति यतो एतावता एता तेषां भोगः न जातः तादृश अभुक्तप्रतिक्रियाः संस्काराः यदा यदा तेषां संस्काराणां भोगः भवति तत्तु कर्मफलं तत्र संस्कारवशात् यदा वदतु किमपि उदाहरणं दातुं शक्यते वा भगिनि संस्कारः किं कर्मफलं किम् हा इदानीं तत्र कश्चन पुरुषः अस्ति सः पुरुषः अन्यस्य धनम् अपहरति तर्हि तेन कर्म कृतं धनस्य अपहरणम् अनेन तस्य मनसि विकारः जातः तस्य मनसि विकारः जातः तर्हि इदानीं तेन पुरुषेण तस्य प्रतिक्रिया अनुभोक्तव्या तस्य प्रतिक्रिया अनुभोक्तव्या तत्तु मानसिकस्तरे अन्यस्य पुरुषस्य या, या येन पुरुषेण धनम् अपहृतं तस्य मनसि वेदना अभवत् यद् मम धन धनं mm. जातम् इति तस्य तादृश तस्य मनसि यादृशवेदना आसीत् तद् तद् तुल्यं, तद तुल्यं वेदना येन पुरुषेण धनम् अपहृतं तेन अपि अनुभोक्तव्यम् hmm? mm. तर्हि वेदना, तदेव तत्र संस्काररूपेण तिष्ठति तत् अग्रे वेदना, अस्मिन् भवेत् इति तदेव प्रतिक्रिया तत् प्रतिक्रिया द मेण्टल् सफरिङ्ग् दट् हियास् टु एक्स्पीरियन्स् दट् इस् द संस्कार अग्रे यदा सः अनुभवति वेदनां वास्तविकतया यदा सः अनुभवति वेदनां मानसिकस्तरे अथवा भिन्नरीत्या तस्य धनम् अपहृतं वा भवतु कथञ्चित् सः मानसिकवेदनाम् अनुभवति तादृश अनुभवः कर्मफलं यावत्पर्यन्तम् अनुभवः न जातः इट् इस् लैक् अ बेङ्क् अकौण्ट् रैट् मया किमपि कृतं तस्य संस्कारः बेङ्क् अकौण्ट् मध्ये भवति अक्युमुलेट् भवति यदा तस्य केन् यु विड्रा दट् देन् यु द मनी इन् युर् हेण्ड् ैट् तदानीं तत् कर्मफलस्य भोगः यावत्पर्यन्तं भोगः नास्ति तावत् पर्यन्तं संस्काराणां समूहः तिष्ठति मनसि वा कर्मफलम् अनुभोक्तव्यम् एव वा यथा यदा किमपि परमपुरुषस्य अनुग्रहेण संस्काराः कर्मफलं विना अपि अपगच्छ अपगन्तुं शक्यते वा हा इत्युक्ते कर्मफलानि कदा अपगच्छन्ति इति चेत् येन पुरुषेण कर्म कृतं तेन कर्मफलम् अनुभोक्तव्यम् एव यदि यत् कर्म कृतं एतावता यत् कर्म <laughs> कृतं तस्य कर्मफलम् अनुभोक्तव्यमेव परन्तु यः पुरुषः साधकः यः पुरुषः साधकः अभवत् यः साधनां करोति mm -hmm. तस्य कृते किं भवति इति चेत् यः पुरुषः साधनां करोति तस्य कृते पूर्वजन्मसंस्काराः कर्मरूप कर्मफलरूपेण तेन पुरुषेण शीघ्रेण कर्मफलानि सः पुरुषः अनुभवति शीघ्रेण अनुभवति यतोहि सः साधकः अभवत् इति कृत्वा तस्य पूर्वजन्मकर्म कर्मणां यानि सं ये संस्काराः सन्ति तेषां कर्मफलरूपेण सः साधकः झटिति इत्युक्ते शीघ्ररूपेण सः अनुभवति अपि च सः ब्रह्मचर्यभावस्य पालनं करोति इति कृत्वा सः नूतनसंस्काराणां तत्र सङ्ग्रहः न भवति यतोहि इदानीं सः यदा कर्म कर्म करोति तु परमपुरुषस्य यन्त्ररूपेण कर्म करोति यदा यन्त्ररूपेण कर्म करोति तदानीं तस्य स्वस्य संस्काराः न भवन्ति यतोहि ब्रह्मभावं स्वीकृत्य सः सर्वकर्म सर्वकर्म करोति इति कृत्वा नूतनसंस्काराः न उत्पद्यन्ते अतः नूतनसंस्काराः न सन्ति चेत् नूतनकर्मफलानि अपि न भवन्ति पूर्वजन्मनां कर्म पूर्वजन्मनां ये संस्काराः सन्ति तेषां भोगः शीघ्रेण भवति यः साधकः अस्ति इति कृत्वा अततो गत्वा यदा सः साधनां कृत्वा कृत्वा कृत्वा पूर्वजन्मनां संस्काराणां सर्वेषां भोगः जातः तदानीं सः दग्धबीजवस्थायां भवति तदानीं तस्य पूर्वजन्मसंस्काराः अपि समाप्ताः नूतनसंस्काराः अपि न उत्पन्नाः तर्हि सः दग्धबीजवस्थायां भवति तदानीं संस्काराः एव न सन्ति सः उत्कृष्टः साधकः तस्य तु परमात्मना सह ऐक्यम् अवश्यं भवति गिनी okay. प्रथमवाक्यं यत् अस्ति अवभावना तस्य अर्थं किम् अस्ति कुत्र अस्ति अवभावना उपरि गच्छतु उपरि कुत्र अस्ति अवीना अवीनाभावसम्बन्धः अवीनाभावसम्बन्धः इत्युक्ते प्रकृतिचैतन्योः अवीनाभावः इन्सपरेबल् सम्बन्धः तदेव अत्र उक्तं खलु देन् इन्सपरबल् कौण्टर् पार्ट् इन्सेप्रबल् इन्सेप्रबल् इति वदामः चेत् अविनाभावसम्बन्धः एकं विना अन्यः न तिष्ठति ओके अत्र कस्यचित् पुरुषस्य स्वभावः तस्य संस्कारवशात् एव तस्य स्वभावः निर्मितः भवति संस्कारेणैव कस्यचित् पुरुषस्य स्वभावः निर्मितः भवति अतः सामान्यजनानां पूर्वजन्मनां संस्काराणाम् अनुभवः भवति कर्मफलरूपेण अनन्तरं नूतनसंस्काराः अपि उत्पद्यन्ते परन्तु साधकस्य तथा नास्ति इति अत्र विषयः अस्ति अस्तु किञ्चित् अग्रे गच्छामः इदानीं किं सरिताभगिनी पठितुमिच्छति वा एवं पुनर्जन्म एतेषां अभिव्यक्त्यर्थम् एव अपि च कर्मपरिमाणा परिणामानाम् अनुभवार्थम् इति द्रष्टुं शक्यते यथा मृत्योः समये मनः संकुचितं भवति अथवा भाव्यप्रतिक्रियारूपेण संस्काररूपेण परिवर्तते तथा एतेषां प्रतिक्रियाणाम् अभिव्यक्तिः अनुभवश्च जन्मक्षणात् एव आरभ्यते यथा उदाहरणरूपेण जतुकन्दुकः मनसः प्रतिनिधिरूपेण एतां प्रतिक्रिया एतां प्रतिक्रियां स्पष्टतया व्याख्या एतां प्रक्रियां मीन्स व्याख्यासयुक्ति चतुकंदुक अदुलपरमित संकोच भविम अर्ष संकोच जतुकंदुक विकृति जनयति। यतुकन्दुकः प्रकृतिनियमानुसारं स्वस्य सामान्यरूपं पुनः प्राप्तुं प्रयतेत मनसः विषये तस्य विस्तारः सङ्कोचनं च समानं भवति परन्तु मृत्युकारणात् सामान्य अवस्थायाः पुनः प्राप्तिः न सम्भवति यतोहि मृत्योः परं किमपि कर्तुं कर्म कर्तुं न शक्यते यदा मनः पुनर्जन्मनि नूतनम् अस्ति नूतनमस्तिष्कं प्राप्स्यति तदैव स्वस्य सामान्यरूपप्राप्तेः इच्छा पूरय पूरयितुं शक्नोति प्रतिक्रियायाः कारणात् मनः पुनः सामान्यरूपं प्राप्तुम् अर्हति अर्हति स्म परन्तु मृत्युकारणात् तत् अपूर्ण तिष्ठति मनः मृत्युसमये सम्भाव्यबलरूपेण अथवा शक्तिरूपेण संस्काररूपेण जीवात्मनः आश्रयं स्वीकरोति एतस्याः प्रतिक्रियायाः स्फूर्त्यर्थम् एव जीवात्मा पुनर्जन्मसमये नूतनशरीरस्य आश्रयं गृह्णाति सम्भाव्यप्रतिक्रिया संस्कारः अथवा बलं व्यक्तं भूत्वा पुनः मनः पुनः प्रादुर्भावयति पुनर्जन्मनि कृतेन सङ्कोचेन इदानीं यदा वयं कर्म कुर्मः तदा तस्य प्रतिक्रिया भवति एवं रूपेण मनः स्वस्य स्थितिं पुनः प्राप्नोति किन्तु यदा मृत्यु भवति तदा ये कर्मप्रतिक्रियाः यदा मनः ये येन रूपेण तिष्ठति तत्र सङ्कोचः भवति किन्तु तस्य सामान्यरूपेण आगतम् इति सामर्थ्यं नास्ति तत्र तत्र ये प्रतिक्रियाः ते संस्काररूपेण तिष्ठन्ति तत्र मनः जी, जीवात् मनः आश्रयं स्वीकरोति एवं तथैव तिष्ठति इदानीं यदा पुनर्जन्म भवति तदा पुनः प्रतिक्रियायाः फलं भवति तदा एव मनः स्वस्य स्थितिं पुनः प्राप्नोति एवमेव कर्मा तस्य प्रतिक्रिया एव चलति यथा कन्दुकं जन्तुकं जतु च अस्ति तस्य यदि वयम् अङ्गुले द्वारा सङ्कोचं कुर्मः तदा स कन्दुकः पुनः तस्य स्थितिं प्राप्तुं यतते एवं पुनः तस्य सामान्यस्थितिः भवति एवमेव मनः अपि स्वस्य स्थितिं प्राप्तुं निरन्तरं निरन्तरं प्रयतते प्रतिक्रियायाः फलं सुखदुःखरूपेण अनुभवति जीवात्मा एवं रूपेण स्थितिः भवति संक्षेपेण मनः तु सामान्य अवस्थायां यदा न प्राप्नोति तदा सन्तोषा भवति तस्य स्वाभाविकप्रतिक्रिया अस्ति एव यथा मनः स्वस्य स्थितिं प्राप्तुं सर्वथा प्रयतते मृत्युसमये एषा एस, स्थितिः न भवति अतः मनः तथैव सङ्कोचरूपेण तिष्ठति अथवा सम्भावित प्रतिक्रियाः अनुभवरूपेण संस्काररूपेण तिष्ठति एव यदा पुनर्जमनं भवति तदा पुनः प्रक्रिया आरभ्यते तदा पुनः मनः स्वस्थस्थितिं यदा प्राप्नोति एवमेव प्रक्रिया चलति इति आमामाम् इत्युक्ते सम्यक् भगिनि इत्युक्ते मरणसमये यदा मनः शरीरं त्यजति तदानीं मनः नूतनशरीरं प्राप्तुं पुनर्जन्मप्राप्तुं प्रतीक्षां कुरु करोति इत्युक्ते मनः मनः परमात्मना सह ऐक्यं यदा प्राप्नोति तदानीं तु भिन्नवार्ता तदानीं मनः न न भवति इत्युक्ते मुक्तिः अस्ति चेत् मनः भूममनसा सह ऐक्यं प्राप्नोति मोक्षः अस्ति चेत् मनः परमात्मनि विलीनं भवति यतः मनः न तिष्ठति परन्तु सामान्यपुरुषस्य मनसि तु संस्काराः भवन्ति तर्हि तादृशसंस्काराणां भोगार्थं सः नूतनशरीरं स्वीकरोति पुनर्जन्मरूपेण तावत् यदा पुनर्जन्म न भवति तदानीं मनः जीवात्मनि संस्कारा, संस्कारान् गृहीत्वा तिष्ठति यावत्पर्यन्तं नूतनशरीरं न लभ्यते प्रतीक्षामेव करोति यतो यतोहि अत्र अयं परिच्छेदः बहु मुख्यः यतोहि अस्य विषये बहवः बह्व्यः कथाः सन्ति बहुत्र इत्युक्ते मनः अत्र जीवात्मा तत्र गच्छति यत्र गच्छति एतत् सर्वं तत्र स्वर्गः नरकः इत्यादयः विषयाः सन्ति परन्तु वस्तुतः अत्र तु तथा किमपि नास्ति मनः किमपि कर्तुं न शक्नोति तत्र मनसि संस्काराः सन्ति संस्काराणाम् अभिव्यक्तिः कदापि न भवति यावत्पर्यन्तम् नूतनशरीरं न लभ्यते इति सर्वदा मनसि भवेत् नूतनशरीरं यावत्पर्यन्तं न लभ्यते तावत्पर्यन्तं मनसा किमपि कर्तुं न शक्यते यदा नूतनशरीरं लभ्यते तदानीं मस्तिष्के आश्रयं प्राप्नोति यः मस्तिष्कः शरीरे भवति तादृशमस्तिष्के आश्रयं प्राप्नोति तदानीमेव अभुक्तप्रतिक्रियाणाम् अनुभवः भवितुम् अर्हति इत्यत्र विषयः अस्ति ओके okay. इदानीम् अग्रिमपरिच्छेदः तत्र प्रियपद्ने स्वीकर्तुमिच्छति शुछ <laughs> <शुछुण> वा <कर्मा laughs> <laughs> <ते> <laughs> शुभाशुभं वा कर्म मनसि विकृतिं शुभाशुभं वा कर्म मनसि विकृतिं जनयति मनसः सामान्यरूपस्य प्राप्तेः प्रक्रि... प्रक्रियायां कश्चन सत्कर्मणां सत्फलं दुष्टकर्मणां च दुष्परिणामं प्रतिक्रियारूपेण अनुभवति मृत्योः अनन्तरं मनः सम्भावितप्रतिक्रियारूपेण संस्काररूपेण जीवात्मनः आश्रयं स्वीकरोति तासाम् त्यार्थम् जीवात्मना प्रतिक्रिया प्रतिक्रियाणाम् अभिव्यक्तियोग्यं शरीरम् अन्वेष्टव्यं भवति यथा उदाहरणत्वेन रामः म्रियते चेत् मनः स्वस्य जीवात्मनः आश्रयं गृह्णाति सम्भावितप्रकृति प्रकृतिक्रियारूपेण सम्भावितप्रतिक्रिया भावितप्रतिक्रिया प्रतिक्रियारूपेण संस्काररूपेण रामः अस्मिन् जन्मनि स्वकर्मानुगुणं प्रतिक्रियायां कर्मफलम् अनुभ अनुभवेत् यथा प्रतिक्रिया Ramaha... रामः स्वस्मिन् अस्मिन् जन्मनि स्वकर्मानुगुणं प्रतिक्रियां कर्मफला कर्मफलम् अनुभवेत् मया प्रतिक्रियां किम् अपि अस्तु पुनः वदामि रामः अस्मिन् जन्मनि स्वकर्मानुगुणं प्रतिक्रियां कर्मफलम् अनुभवेत् यथा रामः अष्टवर्षे बाहुभङ्गस्य पीडातुल्यं मानसिकदुःखम् अनुभवेत् दशवर्षे भाग्यप्राप्तेः सुखम् अनुभवेत् एकादशवर्षे पितृहीनस्य दुःखम् च अनुभवेत् यथा यथा रामस्य विकृतं मनः सामान्यरूपम् प्राप्नोति तथा तथा ए तथा तथा रामेण एतत् सर्वम् अनुभो भोक्तव्यम् भवति सो so, <coughs> तत्र शुभकार्यं वा अशुभं वा द्वयमपि केवलम् अशुभं न किन्तु शुभकार्यमपि मनसि किमपि परिवर्तनं भवति विकृतिं मनसि जनयति So, uh, <coughs> उत्तमकार्यं करोति चेत् सत्कर्मणा सत् कर्मणि सत करोति चेत् तस्य फलं सत्फलं भवति दु पापकर्मणां दुष्टकर्मणां फलं तु दुष्परिणामं प्रतिक्रियारूपेण भवति प्रतिक्रिया इत्युक्ते एकः का कार्यं करोति तस्य प्रतिक्रिया भवति तत् कास् एण्ड् एफेक्ट् तत् भवति मृत् इदानीं सः मृतः अनन्तरं तस्य तस्य मनः अस्ति किल तत् शरीरस्य मृत्युः भवति किन्तु मनः सो मनः तु किं किं पूर्वं सः कृतवन्तः कृतवान् सत्कार्यं वा दुष्टकार्यं सत्कार्यं वा दुष्कार्यं वा दुष्कर्म वा सत्कर्म वा तस्य प्रभाव भवति मनसि अपि च तत् संस्का संस्काररूपेण संस्काररूपेण संस्कार इत्युक्ते किमपि सम्भावितप्र प्रतिक्रिया न, त तस्य जीवात्मनः आश्रयं भवति तस्य जीवात्मना मृत्युन मृत्यु मनसि किं स्थापितमस्ति स्टोर्ड् इत्युक्ते किं वक्तव्यं तत् तस् तस्य जीवात्मना आश्रयं स्वीकृत्य अग्रे अपि अग्रिम जीवने अपि आगच्छति ता सम्भाव्यो ते सर्वे तानि सर्वाणि प्रति क्रियाणि अपि जीवात्म नूतन शरीरं नूतन शरीरं अपि भोक्तव्यम् अन्वेष्ट ष्टव्यम् इत्युक्ते महोदय इत्युक्ते सि यथा तस्य संस्काराः सन्ति खलु पूर्वजन्मसंस्काराः सन्ति तेषाम् अनुभव तेषां तादृशसंस्काराणां यानि कर्मफलानि सन्ति तादृशकर्मफलानाम् अनुभवार्थं यादृशशरीरम् अपेक्षितमस्ति तादृशशरीरं यावत्पर्यन्तं न प्राप्तं तावत्पर्यन्तं मनः तिष्ठति संस्कारेण सह जीवात्म जीवात्मना सह प्रतीक्षां करोति इत्युक्ते इत्युक्ते कश्चन पुरुषः अस्ति तस्य संस्काराः सन्ति तैः संस्कारैः सह पुरुषः अष्टवर्षे तत्र मानसिकदुःखम् अनुभवेत् बाहुभङ्गस्य मानसिकदुःखम् अनुभवेत् तर्हि तादृशपरिस्थितिः अपेक्षिता अस्ति खलु तादृशपरिस्थितिः यस्मिन् शरीरे लभ्यते तादृश शरीरं यावत्पर्यन्तं न लभ्यते तावत्पर्यन्तं सः प्रतीक्षां तद् मनः प्रतीक्षां करोति एतत् सर्वं प्रकृ प्रकृत्या क्रियते प्रकृतिः एव तत्र कीदृशशरीरम् अपेक्षितम् एतादृशसंस्काराणां Uh, यानि कर्मफलानि सन्ति तस्य भोगार्थं यादृशशरीरं यादृशपरिस्थितिः अपेक्षिता अस्ति तादृशपरिस्थितिः यावत्पर्यन्तं न लभ्यते तावत्पर्यन्तं प्रतीक्षां करोति मनः अवगतम् आं महोदय so, उदाहरण उदाहरणरूपेण एकः रामः अस्ति तस्य पुनर्जन्मम् अभवत् तस्य सः किं कर्म कर्म कृतवान् तत् अनुगुणं नूतन प्रतिक्रियां सो तस्य प्रतिक्रियाम् इदानीं नूतनशरीरी शरीरेण अनुभवति एव यथा प्रायः अष्टवर्षे तस्य वेदना भवति मानसिकदुःखम् अनुभवति बाहुभङ्गपीडातुल्यं वेदना अनुभवति अनन्तरं दशवर्षे तस्य तस्य का किमपि पूर्वसत्त्वकर्म कर्मण का कर्मण कृतं कर्म कर्माणि कृतम् अतः तस्य भाग्यं भाग्यप्राप्तः सुखम् अनुभवति सः पुनः पितृ पुनः प्रायः एक एकादशवर्षे तस्य पितस्य मृतुः पितस्य मृत्युः भवति तत् पितुः तं दुःखं पितुः मुत् पितुः मृत्यं पितुः पितुः मृ मृत्युः भवति तस्य दुःखम् अपि सः अनुभोक्तव्यं तेन अनुभोक्तव्यं सो यथा यथा तस्य विकृतं मनः विकृत विकृतं मनः पूर्वावस्थां न प्राप्नोति हा सो सामान्यरूपं न प्राप्नोति सो यथा यथा रामस्य विकृतमनः सामान्यरूपं प्राप्नोति तथा तथा रामेण एतत् सर्वम् अनुभोक्तव्यं भवति यत् एतत् सत्कर्म वा दुष्टकर्म वा तस्य प्रभाव तस्य प्रतिक्रियां भोक्तव्यम् ए प्रतिक्रिया क्रिया प्रति प्रतिक्रियाः भोक्तव्यम् एव रामेण समीचीनं समीचीनम् इत्युक्ते मनुष्याः स्वकर्मणां कर्तारः सन्ति ते कर्तारः सन्ति तत्र पशूनां पशूनां सस्यानाम् अपेक्षया मनुष्याः स्वकर्मणां कर्तारः सन्ति अतः ते तेषां कर्मणां प्रतिक्रियाः अनुभोक्तव्याः एव संस्काराणाम् अनुभवः तेन पुरुषेण तेन मनुष्येन कर्तव्यः तदर्थं ते पुनर्जन्म ते स्वीकुर्वन्ति तर्हि तत्र मनुष्याणां कर्म द्विविधम् अस्ति तत्र पूर्वं पूर्वं वास्तविकर्म तेन कृतम् अपि च यद् कर्म पूर्वजन्मसंस्काराणां कर्मफलानाम् अनुभवार्थं यद् कर्म तेन क्रियते इति तत्र कर्म द्विविधम् अस्ति वास्तविकं कर्म द ओरिजिनल् आक्षन् एण्ड् आक्षन्स् विच् आर् हेपनिङ्ग् इन् रियाक्षन् टु द प्रीवियस् कर्म तर्हि एतादृशद्विविधं कर्म अस्ति तदनुगुणं तर्हि तत्र यद् यद् कर्म अस्ति तस्य कर्मफलं तस्य संस्कारः भवति यद् यदा कर्म क्रियते वास्तविककर्म तदानीं तस्य संस्काराः भवन्ति तादृशसंस्काराणाम् अनुभवः अग्रे भविष्यति इदानीं पूर्वजन्म यद् संस्कारः अस्ति पूर्वजन्मनः संस्कारः अस्ति तस्य कर्मफल पुरुषः किञ्चित् कर्म करोति किञ्चित् कर्म करोति इति तत्र कर्म द्विविधम् अस्ति तर्हि अत्र वास्तविकर्मणः कर्मफलं वास्तविकर्मणः संस्कारः संस्कारस्य यद् कर्मफलं भवति तस्य अनुभवः सः पुरुषः अग्रे अनुभवति किमपि अस्ति इति कृत्वा तर्हि यदा तत्र चतुकन्दुकस्य चन्दुक कन्दुकस्य विषये उक्तं तर्हि यदा मनः मनः विकृतिम प्राप्नोति तदानीं तादृश विकृतिः विकृतेः परिवर्तनम् इत्युक्ते पूर्ववस्थां यावत्पर्यन्तं न प्राप्नोति तावत्पर्यन्तं संस्काराः तिष्ठन्ति यदा संस्कार संस्कारात् कर्मफलस्य अनुभवः भवति तदानीं मनः पूर्वावस्थां प्राप्नोति तदेव अत्र उदाहरणरूपेण दत्तमस्ति तर्हि मनः यदा शरीरं मृतं तदानीं मनः गच्छति तिष्ठति प्रतीक्षां करोति यावत्पर्यन्तं योग्यं शरीरं न लभ्यते तावत्पर्यन्तं प्रतीक्षां करोति यदा योग्यं शरीरं लभ्यते तदानीं तादृशशरीरम् आश्रयरूपेण स्वीकृत्य पूर्वजन्मनां संस्कारस्य प्रतीक् संस्कारस्य यानि कर्मफलानि सन्ति संस्कारात् तेषाम् अनुभवः भवति तदेव उदाहरणरूपेण अत्र दत्तमस्ति रामस्य विषये तत्र अष्टवर्षे बाहुभङ्गस्य पीडनं तेन अनुभोक्तव्यम् इति कृत्वा तादृशशरीरम् अपेक्षितम् अतः तादृशशरीरं यावत्पर्यन्तं न लभ्यते तावत्पर्यन्तं मनः प्रतीक्षां करोति दशवर्षे तत्र भाग्यप्राप्तेः सुखम् अनुभोक्तव्य अनुभोक्तव्यम् अनन्तरम् एकादशवर्षे तस्य पितुः मरणं भवेत् एतद् एतादृश यद् यद् या या परिस्थितिः अस्ति तादृशपरिस्थितेः पूर्त्यर्थं यादृशशरीरम् अपि च यादृश यादृशपरिस्थितिः अपेक्षिता यावत्पर्यन्तं तत्सर्वं न लभ्यते तावत्पर्यन्तं तद् मनः तिष्ठति ए एतस्य सर्वस्य व्यवस्था का करोति इति चेत् प्रकृतिः एव करोति प्रकृतिः एव करोति प्रकृतिः एव पश्यति कुत्र एतादृशपरिस्थितिः अस्ति कुत्र एतेषां संस्काराणां अनु संस्काराणां कर्मफलानि कर्मफलानाम् अनुभवार्थं यादृशपरिस्थितिः अपेक्षिता यावत्पर्यन्तं तादृशपरिस्थितिः न लभ्यते तावत्पर्यन्तं मनः तिष्ठति इति अत्र विषयः अस्ति कोऽपि प्रश्नः अस्ति अत्र अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः नमस्कारः